अथ प्रथमकाण्डे तृतीयप्रश्नः प्रारम्भः प्रदेश्याम् भिरुन्दामिष्ठेन्द्रिभयं द्रीष्मः इदमस्य क्रीवा अभिरुन्दामि दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वा शृन्दता लोकपितृषदनो यव सेवया स्मद्वेषयवया राधे तृणागो सदनमस्य दिवग्रस्तभानान्तरिक्षं वृणपृथिवीन्द्रहरानस्त्वा मारितो मिनो चरित्रावर्णयो द्रुवेण ब्रह्मवनिं वा क्षत्रवलिगो सुप्रजावगोरायस्पोषहनिं वलयोर्विब्रह्मदृगोमाक्षत्रेन्द्रगुमाप्रजान्द्रगोहराय स्पोषेन्द्रगुमाकृते नद्या वा पृथिवे आपुणे धामिन्द्रस्य ततो विश्वजस्य छायापरित्वा गर्भणोरयमाभवन्तय वलवृद्धयो जुष्टा भवन्तजुष्टय इन्द्रस्यो रसेन्द्रस्य त्वामस्वेन्द्ररसेन्द्राय त्वा क्षोणनो वैष्णवान् खलामेतमन्दम्बरमुदन्नस्य मानोऽयमसमानो च मधरङ्गलो मियोनस्यमानो योऽसमानो राति गायुत्रेण छन्दसा वबाढोन्दो सह विराडसपत्नः सम्राडशित्रायः स्वराडस्यभिमादिहाविश्वा राडस विश्वासान्नाष्ट्रान्दाह नः प्रोक्ष्यामि वैष्णवादकहनो मनयामि वैष्णवासि यवया स्मेषाते रक्षणो वलगहनो वस्त्रणावि वैष्णवान् रक्षाणो वरगहनो भिकाभि वैष्णवान् रक्षणो वलगहनावदलावि वैष्णवे रक्षवणो वलगहनो वर्योहाभिवैष्णवे रक्षवणो वलघहनो परिसृणाविवेष्णवे रक्षाणो वलगहनो वैष्णवे बृहन्नसि बृहद्रावा बृहतेमिन्द्राय वा चन्मदा प्रवाह विभोरसि प्रवाहनो वह्निरसः प्यवाहनश्वात्रोऽसि प्रदे स्तुतो विश्ववेदादिरसिमात्रालीयः सम्राटसि पवमानप्रदक्वादिनभस्वानसंर्त्यो दिब्रह्मद्योगरचिसमर्ध्यामाजोस्येकपादुबुद्ध्यो रोद्रेणानि पाहि मान्येऽपि ब्रहि मा मामालि त्रोषाणोऽयम् वाचयुतवादसाधो गुरुष्वा विक्रमस्वक्षयाय कृति वक्प्रयज्ञवदन्तिरा देवानामेत निष्कृत मृतस्य यो प्रजया सह राजस्पोषेण नमो देवेभ्यः स्वथा पितृभ्य इतमहन्निर्वे मृदृता आत्मय्य बोधये गोसामय्यात्मतनात्मय्य बोधेत्मय्ये चायतम् ज्ञानकान्नान्यानुपागापर्वाग्परैरमिदम् परोवरैस्तन्वादुषेवैष्णवन्देव यज्ञायै देवस्वासृतामृत्वा रकौषधेत्त्वायैस्वै नस्वधि देवैुंसैर्त्यमग्रे नमारेखीरन्तरिक्षं मध्ये नमायुगुंसे पृथिव्यासम्भवपनस्पते शतवशो विरोहसहस्रवरुषाभिवयगोरहेमयं त्वायग्रस्वधि दिस्येति जानप्रणियाय मा सौभगायाच्छिनाराय स्वीरः दुर्गे त्वान्तरिक्षायित्वा दिवे त्वा शुन्दताम् लोकप्रदृशयास्मद्वेषानान्तरिक्षम् वृणपृथिवीमुपरेण दृढदे त्रिभूरि शृङ्गा अया सः अत्राहदुर्गायस्य विष्णुः परमम् पदमवतादिपौरे विष्णा क्रमाणि पश्यदयोपृशे इन्द्रस्य युज्य सखा विष्णुः परमम् पदकं सदा पश्यन्त्य क्षत्रवलिकौ सुप्रजापलकौ राजस्पोषयोक्षत्रन्द्रमो राजस्पोषन्द्रेमकौ राजस्पोषायमानम् बृहस्पते धारयाङ्गाय त्रो नप्रजायश्वप्रजायश्व यज्ञम् यज्ञपदञ्जागवेलसौ शिवो भवतमज्जनः नाग्निश्चरतिप्रविष्टलशीणाम् दे पुत्रब्रह्मणा देवो पुत्र मेवानाम् दे दे विजयाकर्ता आदَرَकम् त्रिसत्यं वारे महादपः सेना नरेह तु शामांशानध्यस्थोषुते व्यक्त्वाक्षारं यपामे रुजस्वत्वं यत्सलेव रुहम्यमापो देवेश्वदते नमोसंते प्रणोभयना लक्षता भूसंयक्तये अंगाना संयज्ञपतिरासुशागते नाक्तौ सञ्जिराये धामूलेव देवि यज्ञपतिं प्रियदातिशकोरो अंतरिक्षजोर्देवे नमदेनाह स्वशस्मनाय जसस्य धन्यवादं वरर्षि यावर्णीयये के ृन्धा पृथिव्याः पृजप्तादानाल्पा प्रैः गुरु प्रजाय देवी श्रुताय वश्रुतायूयुम् देवागोटु श्रुता वयम् परिविष्टा परिवेष्टालो भूयास्मा आप्यायतां प्राणश्च आप्यायतां यक्षश्च आप्यायताश्रौन्दः आप्यायताक्षु्याश्रौत्रे आप्यायतां तत्र एतेन सुन्दकान्नाभिस्तः आप्यायतां नायस्थ आप्यायतामो शुद्धाश्चरित्राप्यामोषधे रक्षतां धनन्दमो नयामि योस्मान्वेष्टयञ्चलं विष्णे नयामि कुर्वन्तरे क्षणं व्यवा यो विस्तका न्दु साधनसं प्राणेन प्राणो तिष्ठन् देवेभ्योन्द्रेतकायो माता न्तरिक्षायदिष क्लिश आदिशो विदुष बुद्धिसत्त्वा छस्वाहान्तरिक्षं यच्छ्रस्वाः देवस्वाहास्वाः मित्रावरुणौ स्वाहास्वाः नवीरां नोष्ठाम् ष्मान् देवष्मागो अभि वासदेष्मानोस्तु सूर्यः अग्नेर्वोगमनगरस्य सदसि राजयामि सुम्नाविनेष् मित्रावर्णयोद्भागे जागृता े शुभोत्रायक्षतोमुपावरोह प्रजास्वामुपावरोहन्दस्वतावम् मे शृण्वन्तापोषिणास्त्वदेवीशोमितदेवस्य विताहम् मे देवीरापो वान्नपाद्यवोर्मिळः विश्वैन्द्रियावान् सन् देवेभ्यो देवत्रा दत्तशुक्रगोशकृ आकार्षिरस्य पापाम् वृक्षगोसमुद्रस्य मोक्षित्या उन्मये यमये वृत्समध्यमा भोवादेश त्वम् पुरातनयत्नोक्तारण्यलोकमवसेणत्वम् नाम लोकेष्ठादत्तादृष्टीग्नस्तनयन् वद्यो हक्षामारेर्यहस्वी विद्वाख्योची भानुनाभात्यन्तः विश्वालयस्मिन् तृभ्यन्ताङ्गलस्तमविश्वा सुक्षुदयङ्गाममग्ने तव क्यामरे मोदय सुवीरम् तस्यामवाजमभिराजयन्तो श्यामत्रिम् राजयन्दे श्रेष्ठञ्यमिष्ठभारताग्नेभर रसोपुरसुहगौरयम् सश्वितानः सन्नितोन् आयुष्टेश्व प्राण आयुपरायिष्ठगत्प्रदीप हृदयो निवेदि य श्रेर्जालः स्वाधीन्यस्वस्य शिक्षो राजानुगमस्य प्रभूतो भूयामयस्य वस्वः प्रासारिम्भुतो दातावाजस्य गोमतः चक्रे सत्पन्नवोर्जनपोर्जम् धाराजेवः स्वोर्जमिषञ्जनः आदेवासस्वदुक्षुणाः अग्नेभवस्वस्व वा अस्मे वृत्तसुवीर्यम्पोषमो रयिम् मयि अग्नेपावृतज्योतिषा मन्द्रया देव जिह्या आदेवादवक्षेक्षिता ृजः कविः सुजिरोचन आहुतः शुक्राजन्तण्डे तृतीयः प्रश्नः समाप्तः